हरि ओं जयीता रामचन्द्राभ्यां नमः अथ श्रीमद्वाल्मीकि रामायणे युद्धकाण्डे एकनवतितमः सर्गः श्रीरामपार्श्वम् आगम्य लक्ष्मणाविभीषणप्रभृतिभिः इन्द्रजितवधवृत्तान्तस्य श्रावणम् सन्तुष्टेन श्रीरामेण लक्ष्मणम् परिसृज्य तस्य प्रशंसनम् सुषेणेन लक्ष्मणादीनां चिकित्सनं च रुधिराक्लिन्नगात्रस्तु लक्ष्मणशुभलक्ष्मणः बभूवरुश्च संहत्वा शत्रुजेतार माहवे ततः सेजाम्भवन्तं च हनुमन्तं च वीर्यवान् सन्निपत्य महातेजा ता च सर्वान् मनोकसह आजगाम ततः शीघ्रम् यत्र सुग्रीव राघवो विभीषणम् अवष्टभ्य हनुमन्तम् च लक्ष्मणः ततो रामं अभिक्रम्य स्वमित्री अभिवाद्य च तस्थो समीपस्थ। चक्रस्येन्द्रानुजो यथा निश्चन्नन्निष्टन्नेव चागत्य घवाय महात्मने आचचक्षे तदा वीरो घोरम् इन्द्रजितोऽवधम् रावणेस्तु शिरश्छिन्नम् लक्ष्मणेन महात्मना न्यवेदयत रामाय तदा हृष्टो विभीषणः श्रुत्वैव तु महावीर्यो लक्ष्मणेनेन्द्रजितवधम् प्रहर्षम् अतुलं लेभे वाक्यं चेदम् उवाचहे साधु लक्ष्मणतुष्टोऽस्मि कर्म च सुकरं कृतम् रावणैर्हि विनाशेन जितम् इत्युपधारय स तं शिरश्च बाघाय लक्ष्मणं कीर्तिवर्धनम् लज्जमानं बलात् नि अङ्गम् आरोप्य वीर्यवान् उपवेश्य तमुत्सङ्गे परिष्वज्यपीडितम् भ्रातरं लक्ष्मणं स्निग्धम् पुनः पुनरुदैक्षत शल्य सम्पीडितम् शस्त्रम् निश्वसन्तं तु लक्ष्मणम् रामस्तु दुःख तन्तु निःश्वास पीडितम् मूर्ध्नि चयनमुपाघ्राय भूयः च लक्ष्मणम् वाक्यम् आश्वास्य पुरुष श भय कृतम् परम कल्याणम् कर्म दुष्कर कर्मणा अद्य हते पुत्रे रावणम् निहतं युधि अद्याहम् विजयी शत्रौ हते तस्मिन् दुरात्मने रावणस्य अनुशस्य दिष्ट्या भीरत्रयारणे छिन्नो हि दक्षिणो बाहू स हि तस्य व्यपाश्रयः विभीषण हनुमभ्यां कृतं कर्म महाद्रणे अहोरात्रे है। कथञ्चिद्विनिपातितः निरमित्र कृतोस्मद्य निर्यास्यतिः रावणः बलव्यूहेन महता निर्यास्यतिः रावणः बलव्यूहेन महता श्रुत्वा पुत्रं निपातितम् तं पुत्र वध सन्तप्तं निर्यान्तम् राक्षसाधिपम् बलेनावृत्य महता निहनेष्यामि त्वया लक्ष्मणनाथेन सीता च पृथिवी च मे तस्मिन् चक्रजेतरिचाहवे स तं भ्रातरमाश्वास्य परिष्वज्य च राघव रामः मुदितः समाभाष्येदमब्रवीत् विचल्योऽयं महाप्राज्ञ स्वमित्रिर्मित्रवत्सलः यथा भवति सुस्वस्थ तथा तमुपाचर विशल्य क्रियताम् क्षिप्रम् स्वमित्री स विभीषणः रुक्षवा नरसैन्यानाम् शूराणाम् द्रुमयोधिनाम् ये चाप्यन्येत्र युध्यन्ति सशल्या वृणिनस्तथा तेऽपि सर्वे प्रयत्नेन क्रियन्ते सुखिन त्वया एवम् उक्तस्त रामेण महात्मा लक्ष्मणाय ददोनस्त सुषेण परमौषधम् स तस्य गन्धमाघ्राय विशल्य समपद्यत तदा निर्वेदनश्चैव संरूढव्रणैव च विभीषणं मुखानां च सुहृदाम् राघवाज्ञया सर्व वा नरमुख्यानां ततः प्रकृतिमापन्नो हृतशल्यो गतक्लमः सौमित्री मुदे तत्र क्षणेन तदैव राम प्लवगाधिप तथा विभीषण च वृक्षपति च वीर्यवान् अधिक सौमित्रिमरोगमुत्थितं मुदा सैन्यासुचनं जय शिरे अपूजयत् कर्म सलक्ष्मणस्य सुदुष्करं दाशृतिर्महात्मा महात्मा युधिवानरेन्द्रो निशम्यतं चक्रजितम् निपातितम् इत्याख्ये श्रीमद् रामायणे वाल्मीकि आदिकाव्य युद्धकाण्डे एकनवतीतमः सर्गः श्रीसीता रामचन्द्रपणमस्तु